श्रीमद्भागवत् महापुराणं दसंस्कन्ध अष्टाशीतितमोऽध्यायः तेनोपशिष्टमन्त्रस्तपराधान्सं सवेपथो यावदन्तं दिवो भूमे काष्ठानामुद्गादुदुकम् अजानन्तप्रतिविधिं तृष्टिमासंसुरेश्वराः ततो वैकुण्ठमगमन् भास्वरं तमश परम् यत्र नारायणसाक्षान्यासिनां परमागतिः शान्तानां नस्त्यदण्डानां यतो नावर्तते गतः तं तथा व्यसनं दृष्ट्वा भगवान् व्रजनार्दनः दूरात् प्रत्योदयाद्भुत्वा बटको योगमाययाम् मेखलाजिनदण्डाक्षै तेजसाग्निरिवज्वलन् अभिवादयामास च तं कृष्पाळे विनीतवत् श्रीभगवानुवाच श्राकुलेय भवान् व्यक्तं श्रान्त किं दूरमागतः क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधो यदि न श्रवणायालं जस्मन् व्यवसितं विभो भण्यताम् प्राय स पुम्भिर्सिते स्वार्थान् समीहते शेषु उवाच एवम् भगवता पृष्टो वचसा मृतवर्षिणाम् गतस्क्लमो ब्रवृत्तस्मै यथा पूर्वम् अनुष्ठितम् श्रीभगवानुवाच एवं चेतर्हि तद्वाक्यं न वयं सद्धीमहि यो दक्षसापात्मयसाच्यं प्राप्त प्रेतपि साचरात् यदेवस्तत्र विस्रम्भो दानवेन्द्रजगद्गुरौ तर्हि शङ्गासु श्वशिरसि हस्तं नश्च प्रतीयताम् यद्य सत्यं वच शम्भो कथं चिद्दानवर्षभ तदैनं जय्य सद्वाचं न यद्वक्ता नृतम् पुनः इत्थम् भगवतश्चित्रये वचोभिः स सुपेशलैः भिन्नधिर्विस्मृतशृष्णीष्वहस्तं कुमुतिर्व्यधात् तथापदद्भिन्नशिराभद्राहतिक्षणात् जयशब्दो नमः शब्दसाधुशब्दो भवद्दिवे मुमुचोपष्पवर्षाणि हते पापे विकासुरे देवर्षि पितृगन्धर्वा मोचितसङ्कटाशिवः नुक्तं गिरे गिरिसमद्भ्याः भगवान् पुरुषोत्तमः अहो देव महादेव पापोऽयं श्रीनपाप्मना अतः को नो महस्पीश जन्तुर्वै कृतकिल्बुष क्षेमीशात् किं निष्वेषो विश्वेसे कृतास्को जगद्गुरौ या एवमव्याकृतशक्त्यो जन्मतः परस्य साक्षात् परमात्मनो हरे गरित्रमोक्षं कथयत् शृणोति विमुच्यते संस्कृतिभिः सुतारिभिः ये श्रीमद्भागुते महापुराणे परमहंस्यां चयतायां दस स्क उत्तराधे रुद्रमो क्षण नाम अष्टाशीतितमोध्याय